सर्गः रामस्तु सहितो भ्रात्रा सीतया च परन्तपः सुतीक्ष्णस्याश्रमपदम् जगामसहतैर्द्विजैः स गत्वा दूरमध्वानम् नदीस्तीर्त्वा बहूदकाः ददर्श विमलम् शैलम् महामेरुमिवोन्नतम् ततस्त दिक्ष्वा कुवरौ सततम् विविधैर्द्रुमैः कारणम् तौ विविशतुः सीतया सह राघवौ प्रविष्टस्तु वनम् घोरम् बहु पुष्पफलद्रुमम् ददर्शाश्रममेकाम् ते चीरमाला परिष्कृतम् तत्र तापसमासीनम् मलपङ्कजधारिणम् रामः सुतीक्ष्णम् विधिवत्तपो धनमभाषत रामोऽहमस्मि भगवन् भवन्तम् द्रष्टुमागतः तन्माभिवदधर्मज्ञमहर्षय सत्यविक्रमा सनिरीक्ष्य ततो धीरो रामम् धर्मभृताम् वरम् समाश्लिष्य वरा आश्रमोऽयम् त्वयाक्रान्तः सनाथ इव साम्प्रतम् महायशः देवलोकमितो वीरदेहम् त्यक्त्वा महीतले चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः इहोपयातः काकुत्स्थदेवराजः शतक्रतुः उपागम्य च मे देवो महादेवः सुरेश्वरः सर्वान् मम पुण्येन कर्मणा तेषु देवर्षि जुष्टेषु जितेषु मनप्रसादात्सभार्यस्त्वम् विहरस्व स लक्ष्मणः तमुग्रतपसम् दीप्तम् वहर्षिम् सत्यवादिनम् प्रत्युवाचत्मवान् रामो ब्रह्माणमिव वासवः अहमेवाहरिष्यामि स्वयम् लोकान् महामुने आवासम् त्वहमिच्छामि प्रदिष्टमिह कानने सर्वत्र कुशलः रतः आख्यातम् शरभङ्गेन गौतमेन महात्मना एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः अब्रवीन्मधुरम् वाक्यम् हर्षेण महता युतः अयमेवाश्रमो रामगुणवान् रम्यतामिति ऋषिसङ्घानुचरितः सदा मूलफलैर्युतः इममाश्रममागम्य मृणसङ्घा अहत्वा प्रतिगच्छन्ति लोभयित्वा कुतो भयाः नान्यो दोषो भवेदत्त मृगेभ्योऽन्यत्र विद्धि वै तच्छ्रुत्वा वचनम् तस्य महर्षेर्लक्ष्मणाग्रजः उवाच वचनं धीरो विग्रह्य स शरम् धनुः तालहंसु महाभागमृगसङ्घान् समागतान् हन्याम् निशितधारेण शरेणा नतपर्वणा भवांस्तत्राभिषज्येत किम् स्यात्कृच्छतरम् ततः एतस्मिन्नाश्रमे वासम् वासं तु न समर्थये तमेवमुक्त्वा परमम् रामः सन्ध्यामुपागमत् अन्वास्य पश्चिमाम् सन्ध्याम् तत्र वासमकल्पयत् सुतीक्ष्णस्याश्रमे रम्ये सीताया लक्ष्मणेन च ततः शुभम् तापस योग्यमन्नम् स्वयम् सुतीक्ष्णः पुरुषर्षभाभ्याम् ता ताभ्याम् सुसत्कृत्य ददौ महात्मा सन्ध्यानिवृत्तौ रजनीम् समीक्ष्य इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अरण्यकाण्डे सप्तमः